अत तैत्रिय आरण्यः दशमः प्रश्नः प्रारम्भः सहनावतु सहनो भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधितमस्तु माविद्विषावहैः ओम् शाम् तिःशाम् तिःशान्तिः अम्भस्य पारे भुवनस्य मध्ये नागस्य पृष्ठे महतो महीयान् शक्रेण ज्योतेगुंशिसमनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः यस्मिन्निदगुंसम् च विचैति सर्वम् यस्मिन् देवाधिविश्वे निषेदोः तदेव भूतम् तदुभव्यमा इदम् तदक्षरे परमे व्योमन् येनावृतङ्खम् च दिवम् महीम् यमन्तः समुद्रे कवयो यदक्षरे परमे प्रजाः यतः प्रसूता जगतः प्रसूतितो येन जीवान् यथ सर्जभूम्याः यदोषधेभ्यः पुरुषान् विवेश चरचराणि नतः परम् नाम् यदणिगसगम् विवरा आत्परम् यन्महत् महान्तम् यदेकमव्यक्तमनन्तरूपम् विश्वम् पुरानन्तमसः परस्तात् तदेवर्तम् तद् सत्यमाहस्तदेव ब्रह्मपरमम् कवीनाम् विशिषाम् बहुधातम् जायमानम् जा विश्वम् विभर्ति भुवनस्य नाभिः तदेवार्यस्तद्भाजस्तत्सूर्यस्तदु तदेव शुक्रममृतम् तद्ब्रह्म कलापः स प्रजापतिः सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादिभिः कलामुहर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः अर्धमासामासार्तवः संवत्सरश्च कल्पन्ताम् स आपःप्रदुघे उभे इमे अन्तरिक्षमथोऽसुभः नैनमोर्ध्वन्नतिर्यजञ्चन्न मध्ये परिजग्रभज न तस्येषे कश्चन तस्य नाम महद्यशः न सन्दृशे तिष्ठति न चक्षुषा पश्यति हृदा मनीषा मनसाभिक्लृप्तो य एनम् विदुरमृतास्ते भवन्ति अभ्यः सम्भूतो एष हि देवः प्रविशो नु सर्वाः पूर्वो हि जातः स उगर्भे अन्तः स विजायमानः स दरिश्यमाणः विश्वतोमुखः विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतो हस्त उत विश्वतःपाद सम्बाहुभ्यान्नमति सम्पदत्रैर्भ्या वापृथ मे येनस्तत्पश्यन् विश्वाभुवनानि विद्वान् यत्र विश्वम् भवत्येकनीलम् यस्मिन् विदगुंसम् च विचैकगुंस ओतः प्रोतश्च विधुः प्रजासु प्रतद्वोचे अमृतम् न विद्वान् गन्धर्वो नामनिहितम् गुहासु प्रेणिपदानि हितागुहासु यस्तद्वेदसवितुः पिटासत् स नो यत्र देवा अमृतमानशानास्तृतिगे धामा अन्यभ्येरयन्त परिद्या वा पृथिवेजन्त्य सद्यः परिलोकान् परिदिशः ऋतस्य तन्तुम् विततम् विचृत्य तदपश्यत्तदभवत्प्रजासो परेत्यलोकान् परेत्यभूतानि परेत्य सर्वाः प्रदिशो दिशश्च प्रजापदः प्रथमजा ऋतस्यात्मनात्मानमभिसम्बभूव सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य काम्यम् सनिम् मेधामजाशिषम् उद्दीप्य स्वजातवेदोपघ्नम् निरृतिम् मम पशोगिश्च मह्यमापहजीवनम् च दिशो दिश मानो हि पुंसे जातवेदो गामश्वम् पुरुषम् जगत् अविभ्रदग्नागहि श्रयामा परिपातय पुरुषस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्त्यः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय वर्णः षण्मुखः प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षादि धीमहि तन्मा गरुडः प्रचोदयात् वेदात्महाय विद्महे हिरण्यगर्भाय धीमहि तन्मा ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्मा विष्णः प्रचोदयात् तन्नो नारसिगृंहः प्रचोदयात् भास्कराय विद्महे महद्युतिकराज धीमहि तन्नो आदित्यः प्रचोदयात् वैश्वानराजविद्महे लालीराजधीमहि तन्नो अग्निः प्रचोदयात् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् सहस्रपरमादेवी शतमूला शताङ्कुरा सर्वगम् हरतु मे पापम् दोर्वादुःस्वप्ननाशयी काण्डात्काण्डात् प्ररोहन्ति परुषः परुषः परि एवानो दोर्भे प्रतनसहस्रेण शतेन च दा शतेन प्रतनोषि सहस्रेण विरोहसि तस्यास्ते देवेष्टके घेमहविषाभयाम् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा शिरसाधारयिष्यामि रक्षस्व माम् पदे पदे भूमिर्धे निर्धरिणि लोकधारिणि उद्धृतासि वराहेण कृष्णेन शतबाहुना मृत्तिके हण मे पापञ्जम् मया दुष्कृतम् कृतम् मृत्तिके ब्रह्म दत्तासि मृत्तिके देहि मे पुष्टिम् तयि सर्वम् प्रतिष्ठितम् मृत्तिके प्रतिष्ठिते सर्वम् तन्मे निर्मुद मृत्तिके तया हतेन पापेन गच्छामि परमाम् गतिम् यत इन्द्र भयामहे ततो नो अभयम् गृधितमतन्न ऊतये विद्विषोऽपि मृधोदिः स्वस्तिदा विषस्पतिर्वृत्रहा विमृधोभिः कृषेन्द्रः पुरहेतुनः स्वस्तिदा अभयङ्करः स्वस्तिन न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो प्रतिमानानि देभुः ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद्विशीमतः सुरुचो वेन आवह स बुध्रिया उपमा अस्य विष्ठाः सतश्च यो निमसतश्च विवः स्यो नापृथिविभवानृक्षरा निवेशनी यच्छा नः शर्म सप्रधा आह गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ईश्वरे गुम् सर्वभूतानाम् श्रीर्मे भजतु अलक्ष्मीर्मे नश्यतु विष्णुमुखाभिदेवाश्चन्दोऽभिमाल्लोकाननपदीयमभ्यजयन् महागम् इन्द्रो वज्रवाहुषोडशी शर्म यच्छतु स्व श्रीरामघदाकरो अहम् तु महात्मानय्योऽस्मान् वेष्टि सोमानज्ञस्वरणम् गृणहि ब्रह्मणस्पदे कक्षीवन्तम् य औषिजम् शरीरम् यज्ञशमलम् कुसीदम् तस्मिन् सीदतुयोस्मान्वेष्टि शरणम् पवित्रम् विततम् पुराणम् येन पूतस्तरति तेन पवित्रेण शुद्धेन पूता अतिपाप्मा नमरातिन्दरेम सजोषा इन्ध्रगणामरुद्भ्यः स्वामम् पिवरुत्रहन् छोरविद्वान् जहि शत्रु गुम्रपमृधोऽनुगस्वाच्छाभयम् गृणहि विश्वतो नः सुमित्रा न आप ओषधयः सन्तुदर्मित्रास्तस्मै भूयासर्वोऽस्मान्द्वेष्टयम् च वयम् धृष्मः पापो हिष्ठामयो भवस्तान ऊर्ध्वे दधातन महेरणाय चक्षसे यो वः शिवतमो रसस्तस्य भाजयते हनः वशतीरिव मातरः तस्मारङ्गमामपोजस्य क्षया यजुन्मथा आपोचन यथा जनः हिरण्यशृङ्गम् वरुणम् प्रमद्येति अर्थम् मे लेहि याचितः यन्मया भुक्तमसाधूनाम् पावेभ्यश्च प्रतिग्रहः यन्मे मनसा वाचा कर्मणा वा दुष्कृतम् गजा तन्न इन्द्रो वरुणो च पुनन् पुनः नमोऽग्नजेऽप्सुमते नमजिन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽभ्यः निलपाङ्क्रोरञ्यदमेभ्यम् यदशान्तम् तदपगच्छतात् अत्याशनादतिपानाद्यच्च उग्रात्प्रतिग्रहात् तन्नो वरुणो राजा पाणिनाश्यवमर्शत् सोऽहमपापो विरजो निर्मुक्तो आगस्य क पृष्ठ्य गे ब्रह्म स लोकता युर्णस्पमर्षण यमे गंगे यमुने सरस्वती सुतद्स्तोमगुंसगतापुश्मिजा असी क्रिया मरुे वितस्थयाजीकेणचोमयातं सत्य तपसोध्यचात ततो रात्रिरजायत ततः समुद्रो अर्णवः समुद्रादर्णवादधिसंवत्सरोपजारत अहोरात्राणि विदधद्विश्वस्य मिशतो वशी सूर्या चन्द्रमसौ धाता यथा पूर्वमकल्पयत् इवम् च पृथिवीम् चान्तरिक्षमथोऽसुवः यत्पृथिव्यागम् रजः स्वमान्तरिक्षे विरोदसी किमागस्तदापो वर्णः पुनात्वघमर्षणः पुनन्तु वसवः पुना तु वरुणः पुना त्वघमर्षणः एष भूतस्य मध्ये भुवनस्य गोप्ता एष पुण्यकृतान् लोकानेष मृत्योर्हि सुवः स नः सुवः सगुम्सिशाधि ब्रह्माहमस्मि यो हमस्मि योहमस् ब्र्माहमस्हस््रहमस्मे अहमेवाहम्मांजुहोम स्वाहा अकार्यवकीर्णेस्ते नो भ्रूण गुरतल वरुणोपाघमर्षण पापा प्रमुच्य रजो भूमि स्वम रोदय प्रवदी धीरा आह आक्रान्समुद्रः प्रथमे विधर्मञ्जनयन् प्रजाभुवनस्य राजा वृषा पवित्रे अधिसान अव्ये बृहत् सोमो वावृधे सुवान इन्दुः जातवेदसे सुनवामसोममराति यतोमिदहातिवेदः सरः परिषदति दुर्गाणि विश्वानावेव सिन्धुन्दुरितात्यग्निः तामग्निवर्णान्तपसाज्ज्वलम् दीम् द्विलोचनीम् कर्मफलेषु दृष्टा दुर्गाम् देवेगम् शरणमहम् प्रपद्ये सुतरसितरसे नमः अग्नेयत्वम् पारजानम् यो अस्मान् स्वस्तिभिरति दुर्गानि विश्वाश्च बृच्छे बहला न उर्वे भवातोकायतनजागशम् योः विश्वानिनो दुर्गः जातवेधस्यन्ध्वन्नना वा अग्ने अत्रिवन्मनसागृणानास्माकम् बोध्यवितात्तनूनाम् प्रतनादितगुम् सहमानमुग्रमग्निगम्भवेम परमात्सः स्यात् स नः पर्षदपि दुर्गाणि विश्वाक्षामद्देव अतिजुरितात्यग्निः प्रत्नोषि कमेड्यो अध्वरेषु सनाच्च होतानम् साञ्चाग्नेतनुवम्पि प्रजस्वास्मद्भ्यम् च सौभगमा यजस्व गोभिर्दुष्टमयुजो निषिक्तन्तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्ठमभिसंवसानो वैष्णवीयम् वाकविहमादजन्ता भोरन्नमग्नै पृथिव्यै स्वाहा भुवोऽन्नम् वाजवेन्तरिक्षाय स्वाहा सुवरन्नमादित्याय दिवे स्वाहा भोर्भुवःसु वरन्नम् चन्द्रमसे दिभ्यः स्वाहा नमो देवे घः सुधापितृभ्य भूर्भुवः भोरग्नये पृथिव्यये स्वाहा भुवो वायवेन्तरिक्षाय स्वाहा सुवरादित्याय दिवे स्वाहा भूर्भुवः सु वश्चन्द्रमसे दिभ्यः स्वाहा नमो देवे सुधातृभ्यो भूर्भुवः सुवरग्न ओम भोरग्नये च पृथिव्ये च महते तस्वाहा भुवो पायवे चान्तरिक्षाय च महते तस्वाहा सुवरादित्याय च च महते च स्वाहा भोर्भुवः सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते तस्वाहा नमो देवेभ्यस्वधाभ्यो भूर्भुवः सुवर्म हरो पाहि न स्वाहा पाहि न स्वाहा यज्ञम् पाहि विभावसो स्वाहा सर्वम् पाहि शतक्रतो स्वाहा पाहि नो अग्नकेकजा बाह्यतद्वितीय बाह्योर्जम् तृतीय पाहि येऽभ्यष्टतसृभिर्मसो स्वाहा यच्छन्दसा वृषभो विश्वरोपच्छन्दाभ्यश्चन्दा कस्या विवेश स चागम् शक्यः पुरो वाचोपनिषदिन्द्राज्येष्ठयन्द्रिया जलषद्भ्यो देवे नमो देवेभ्य स्वधारभ्य भोद्भुवः सुपश्छन्द ओम् नमो ब्रह्मणे धारणम् मे स्वनिराकरणम् धारयिता यो या सङ्कर्मयो श्रुतम् वाच्यो ओढ्वम् ओम् ऋतन्तपः सत्यन्तपः श्रुतम् तपः शान्तम् तपोदमस्तपश्चमस्तपोदानन्तपो यज्ञन्तपोभोद्भवः सुवर्ब्रह्मैतदुपास्यैतत्तपः यथा वृक्षस्य सम्पुष्पितस्य दूराद्गन्धो वात्येवम् पुण्यस्य कर्मणो दूराद्गन्धो वा यथासि धाराम् कर्ते परितामवक्रामे यद्युवे युगे हवामिह्विष्यामि कर्तम् प्रच्यामीत्येवमृतादात्मानन्दुगुप्से अनोरणी जान्महतो मही जानत्मा गुहाजान्विहितोऽस्य दन्तोः तवक्रजम् पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त जिह्वाः सप्तहिमे लोकायेषु चरन्ति प्राणागुहाशया निहिताः सप्त सप्त अतः समुद्रागिरजश्च सर्वे अतश्च विश्वा ओषधयो रसाच्चयेनेष भूतस्तिष्ठत्यन्तरात्मा ब्रह्मा देवानाम् पदवी कवीनाम् ऋषर्विप्राणाम् ऋषो मृगाणाम् श्येना गृभ्राणा गस्वधिकर्वणाना गुंसो मः पवित्रमध्येधिरेभन् अजामेकाल् वो युतशुक्लकृष्णाम् वह्मीम् प्रजाम् जनयन्ति पुंसरूपाम् अजो ह्येको जुषमानोऽनुषेते जहा केनाम् भुक्तभोगामजोऽन्यः अदुं सशुचिषद्वसुरन्तरिक्षसद्धोतावेधिषदतिथर्गुरोऽणसत् घृषद्वरसघृतसद्योमसदब्जा गोजारुतज अद्रिजा ऋतम् बृहत् घृतम् यमिक्षरे यमस्ययो निर्घृते श्रुतो घृतमुपस्य धाम अनुष्वधमापहमादय स्वस्वाहाकृतम् वृषभवक्षि हव्यम् समुद्राधोर्मधुमागुम् उदारुदुपागुंशुना सममृतत्वमानट घृतस्य नाम गुह्यम् यदस्त्यजिक्पादेवानाम मृतस्य नाभिः वयम् नाम प्रब्रवामा घृते नास्मिन नमोभिः उपब्रह्माशृणवच्छस्य मानम् च दश्रृङ्गोपमे गौर एतत् चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य त्रिधा बद्धो वृषभोरोरवीति महोदेवोमर्त्यागुम् आविवेश त्रिधा हितम् पणिभिर्गुह्यमानम् गविदेवासो देवानाम् प्रथमम् पुरस्ताद्विश्वाधियो रुद्रो महर्षिः शिरण्यगर्भम् पश्यदजायमानपुंसनो देवः शुभया स्मृत्या सञ्जनक यस्मात्परम् न परमस्ति किञ्चिद्यस्मान्नाणीयोनुयोस्ति कश्चित् वृक्ष इव स्तब्धो दिवितिष्ठत्येकस्ते नेदम् वूर्णम् सर्वम् न कर्मणा न प्रजयाधनेन त्यागेनैके अमृतत्वमानुसुः परेण नाकन्निहितम् गुहायाम् विभ्राजते तद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः ते ब्रह्मलोके तु परान्द्रकाले परामृतात्परिमुच्यन् सर्वे चक्रम् विपापम् परमेश्मभूतम् यत्पुण्डरीकम् पुरमध्यसग्रस्थम् तत्रापि दह्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्याम् यो वेदादोः सरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलेनस्य जः सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वसम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान् नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमे वेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाग्नेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्मदत्त्वम् नारायणः ध्याता ध्यानम् नारायणः परः यच्च किञ्चित् जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिष्टतत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगम् हृदयम् चाप्यथो मुखम् अधो निष्ट्यापि तस्यान्तेनाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततकम् शिलाभिस्तुलम्बत्याकोशसन्निभम् तस्यान्ते सुषिरकम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चर्विश्वतोमुखः सोऽग्रभुग्विभजम् तिष्ठन् माहारमजरः कविः तिर्यगोर्ध्वमधः सायीरश्मयस्तस्य सन्तता सन्तापयति सन्देहमापादतलमस्तगः तस्य मध्ये बन्धिशिखा अणीयोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्थाद्विद्युल्लेखेवभास्वरा नेवारशोकवत्तन्वीपीताभास्वत्यनोपमा तस्या शिखाया मध्ये ब्रमात्मा व्यवस्थितः स ब्रह्म स शिवः स आदित्यो वा एष एतन्मण्डलम् तपदि तत्र ताचस्तदृचा मण्डलगुंसृचाम् लोकोथय एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तादिसामादिससाम्नाम् लोकोथजगेश एतस्मिन्मण्डलेर्चिषि पुरुषस्ताधियजोगुंशयजुषा मण्डलगुंसयजुषाम् लोकस्यैषा त्रय्येव विद्या तपतिज एषोऽन्तरादित्ये हिरण्वजः पुरुषः आदित्यो वेते जो जो बलय्यशश्चक्षश्रोत्रमात्मा मनो मन्दिर्मनुर्मृत्युः सत्यो मित्रो बाजुराकाशः प्राणो लोकपालः क्राह्यङ्गान्तः सत्यमन्दममृतो जीवो विश्वः कलव स्वयम्भो ब्रह्मैतदमृत एष पुरुष एष भूता अधिपदे ब्रह्मणः सायुज्यगुं स लोकतामाप्नोत्येतासामेव देवतानागुंसायुज्यम् लो साकुम् मानलोकतामाप्नोति य एवम् वेदेत्योपानिषद निधनपतजे निधनपतान्त्रिकाय नमः ऊर्ध्वलिङ्गाय नमः शिरण्याजनमः शिरण्यलिङ्गाय नमः सुवर्णायनमः सुवर्णलिङ्गाय नमः दिव्याजनमः दिव्यलिङ्गायनमः भवाजनमः भवलिङ्गाजनमः शर्वाजनमः सर्वलिङ्गाजनमः शिवाजनमः शिवलिङ्गाजनमः ज्वलायनमः ज्वलिङ्गाजनमः आत्माजनमः आत्मलिङ्गाजनमः परमाजनमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गज्ञस्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय मै नमो नमः भवे भवे नाति भवे भव स्वाम् नमः वामदेवा जनमो ज्येष्ठा जनमश्रेष्ठा जनमो रुद्रा जनमःकाला जनमः कलविकर्णा जनमो बलविकर्णा जनमो बला जनमो बलप्रवथना जनमः सर्वभूतदमना जनमो मनोन्मना जनमः अघोरेभ्योऽथोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वेभ्यो नमस्ते अस्तु तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपदग् ब्रह्मणाधिपदग् अस्तु सदा शिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतय पशुपतये नमो नमः ऋत्वकमसत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् धूर्ध्वरे तम् विरूपाक्षम् नमो नमः सर्वो वैरुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषोऽ वै रुद्रः सन्महो नमः विश्वम् भुवनम् चित्रम् मुदाजातम् जायमानम् जायमानं यत् सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु कद्रुद्राय प्रचयत से मे वोचे मशन्तमगुम् हृदे सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो यस्य वैकम् गत्यग्निहोत्रहमणी भवति प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रतिष्ठित्ये प्रतिषिवपाच इति पञ्च अदितिर्देवा गन्धर्वा मनुष्या पितरोऽसुरास्तेषाकुम् सर्वभूतानाम् माता मेदिनी महता मही सा वित्रे पृथ्वी बहुला विश्वा भूता कतमाकाया सा सत्येत्यमृते दिवसिष्ठः आपो वा इदकम् सर्वम् विश्वा भूतान्यापः प्राणा वा आपः पशव आपोन्नमापोमृतमापः सम्राडापो विराडापः आपो भोर्भुवः सुवराप ओम् आपः पुनन्तु पूता पुनातु पुनन् द्वब्रह्मणस्पतिर्ब्रह्मपोता पुनः तु माम् यदुच्छिष्टमभोज्यम् यद्वा दुश्चरितम् मम सर्वम् पुनन्तु मामामापो सताम् च प्रतिग्रहग्रस्वाहा अग्निश्च मामन्यश्च मन्यपतयश्च मन्यव्रतेभ्यः पापेभ्यो रक्षन्ताम् हस्ताभ्याम् पद्भ्यामुदरेण शिष्णा अहस्तदपदम्पत् यत्किञ्चदुरितम् मयि इदमहम् मामवृतजोनौ सत्ये ज्योतिषजुहो विस्वाह सूर्यश्च मामन्यश्च मञ्जपदयश्च मञ्जकृतेभ्यः पापेभ्यो रक्षन्ताम् यद्रात्रिया पापमकारिषम् मनसा वाचा हस्ताभ्या पद्भ्यामुदरेण शिष्णा रात्रिस्तदपलुम्बतो यत्किञ्चदुरितम् मयि इदमहम् माममृतजोनौ सूर्ये ज्योतिषजुहो विस्वाह ओमित्येकाक्षरम् ब्रह्म अग्निर्देवता ब्रह्म यत्यार्षम् गायत्र छन्दम् परमात्मम् स्वरूपम् सायुज्यम् विनियोगम् आयातु वरदा देवी अक्षरम् ब्रह्म संमितम् गायत्रीम् छन्दसाम् वाचेदम् ब्रह्म जुषस्व मे यदह्नात् कुरुते पापम् तदह्नात्प्रतिमुच्यते यद्रात्र्यात् कुरुते पापम् तद्रात्र्यात्प्रतिमुच्यते सर्वपर्णे महादेवी सन्ध्याविद्ये सरस्वती ओजोषि सहोऽसि बलमसि भ्राजोऽसि देवानान्धामनामासि विश्वमसि विश्वाय सर्वमसि सर्वायुरभिभोराङ्गायत्री मावाहजामि सावित्रे ब्रह्माशिरो विश्वहृदयगुं निःप्राणापानव्यानो दानसमानासप्राणाश्वेतवर्णासाङ्ख्यायनसगोत्रागायत्री चतुर्विकंशत्यक्षरात्रिपदाः पञ्चशेष सवितुर्वरेण भगो देवस्य धीमहियो ज्यो नः प्रचोदयात् ओमापो ज्योतिरसो मृतम् ब्रह्म भूर्भुवस्सुवरो उत्तमे शिखरे जाते भूम्याम् पर्वतमूर्धने ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथा सुखम् स्तोमया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता आयः पृथिव्यान्द्रविलम् ब्रह्म वर्तसं मह्यम् दत्त्वा प्रजातुम् ब्रह्मलोकम् घृणिः सौर्य आदित्योरप्रभावात्यक्षरम् मधुक्षरन्ति तद्रसम् सत्यम् वैतद्रसमापो ज्योतिरसोऽमृतम् ब्रह्मभूर्भुवःसुभरो ब्रह्म मेतुमाम् मधुमेतुमाम् ब्रह्ममेव मधुमेतुमाम् यास्ते सोम प्रजावत्सोऽभिसो अहम् दुःष्वप्नहम् दुर्शः यास्ते सोम प्राणादिस्ताञ्जुहोमि त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यार ब्रह्म हत्याम् वा एते घ्नन्ति ये ब्राह्मणास्त्रि सुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ओम् ब्रह्ममेधया मधुमेधया ब्रह्ममेव मधुमेधया अद्यानो देव सवितः प्रजावत्सा वीः सौभगम् सुवा इश्वानिलेव समितर्दुरिदानि परासु वा यद्भद्रन्तन्म आसु वा मधुवातारुतायते मधुक्षरन्ति सन्धवः माध्वेर्नः सन्तोषधीः मधुरक्तमतोषसि मधुमत्पार्थिमधुमृजः मधुद्योरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमागुम् अस्तु सोऽः माध्वेयर्गावो भवन्तु यज मन्त्रिसुपर्णमयाचितम् ब्राह्मणागद्यात् भ्रूणात्याम् वा एते घ्नन्ति ये ब्राह्मणा स्त्रिसुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ओम् ब्रह्ममेधवा मधुमेधवा ब्रह्ममेव ब्रह्मा देवानाम् पदवीः कवीनाम् शिर्विप्राणाम् नहिषो मृगाणाम् येषो रुद्राणा निःस्पदितनानागुंसोमः पवित्रमत्येधरे भगुंसश्वतिषद्वसुरन्धरिक्षसद्धोता वेदिषदतिथर्दुरोऽणसद विषद्वरसदृतसव्योमसदब्जागोजाृतजा अद्रिजातम् बृहदे रुचेत्वा रुचेत्त्वा समिश्रवन्ति सरितो न धेनाः अन्तर्हृदा मनसा पूयमानाः घृतस्य धारा अभिचारशी मे हिरण्ययो वेतसो मध्य आसाम् तस्मिन् सुवर्णो मधुकृत्कुलायी भजन्नास्ते मधुदेवताभ्यः तस्याः स ते हृयः सप्तलीरे सुधान्ध्वानामृतस्य धाराम् यदिदम् त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् वीरहत्याम् वा एते घ्नन्ति ये ब्राह्मणा स्त्रिसुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति मेधा देवी विषमाणानागाद्विश्वाचि भद्रासुमनस्यमाना त्वया दुष्टानुदमाना दुरुक्तान् बृहद्वदेम विदधे सुवीराः त्वया दुष्टर्षर्भवति देवि त्वया ब्रह्मागतश्रीरुत त्वया त्वया दुष्टश्चित्रम् विन्दते वसुसानो दुषः स्वद्रविणो न मेधामजीन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विनागुभावा धत्ताम् पुष्करस्रजा अप्सरा सुचया मेधा गन्धर्वेषु चयन्मनः दैवीम् मेधा सरस्वती सा माम् मेधासुरभिर्दृता विस्वाहामाम् मेधासुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या र्जस्पति पयसा बिम्बमाना सा माम् मेधासु प्रतीकाजुषन्ताम् मयि मेधाम् प्रजाम् मयि अग्निस्तेजोदधातु मयि मेधाम् मय प्रजाम् मयीन्द्र इन्द्रियन्दधातु मयि मेधाम् मयि प्रजाम् मयि सोजोऽजोदधातु अपैतु मृत्युरमृतम् न आगन्वैव स्वतो अर्णम् वनस्पतेरिवाभिनःशीलतागुमरयः सततान्नश्च चैपदे परम् रथ्यो अनुपरे हि पन्थान्यस्ते स्व इतरो देवजानात् चक्षुष्मते शृण्वते ते ब्रवीमिमानः प्रजागुम्रीरिषो मोतवीरान् आतम् प्राणम् मनसान् बालभामहे प्रजापति यो भुवनस्य गोपाः स नामृत्यास्त्रायताम् पात्वघुम्हसोद्योज्जीवाच रामशीमहि अमुत्र भोजादधयद्यमस्य बृहस्परे हरिषस्तेरमुञ्चः प्रत्यौहतामश्विना मृत्युमस्माद्देवानामग्नेभिषजा शुचीभिः हरिगुम् हरन्तमनुजन्ति देवा विश्वस्येशानम् ब्रह्मसरूपमनुमेदमाघादयनम् मा विवधीर्विक्रमस्व शल्कैरग्निविन्धान उभौ लोतौ स मेमहम् उभयोर्मोभयोरुद्ध्वातिमृत्युन्तराम्यहम् माच्छिदो मृत्यो मा वधेर्मा मे बलम् विगृहो मा प्रमोषेः प्रजाम् मा मेरीरिष आयुरुग्रनुचक्षसन्त्वाहर्मिषा विधेम मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षिताम् मानो, मानो वधीः पितरम् मोतमातरम् प्रियामानस्तनुवोरुद्ररीरिषः मानस्तो केतनये मान आनुषि मानो गोषमानोऽश्वेषुरीरिषः गीरान्मानो रुद्रभामितो वधीर हनिष्पन्तो नमसा विधेमते प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव पर यत्कामास्तेजभुमस्तन्नो अस्तु वयज्ञस्यामपतयोगीणाम् स्वस्तिदा विषस्पतिर्वृक्रहापि मृधो वशी ऋषेन्द्रः पुरजेतु नः स्वस्तिदा अभयङ्करः त्यम्बगामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुबन्धनाम् मृत्योर्मुक्षीरमामृता ये ते सहस्रमयुतम् वा शा मृत्यो मर्त्या जहन्तरे तानि यज्ञस्य मा यदा जा सर्वा न वयदामहे भृत्यवे स्वाहा मृत्यवे स्वाहा देवकृतस्येन सो वयज नमसि स्वाहा मनुष्यकृतस्येन सो वज स्वाहा पितृकृतस्येन सो वज स्वाहा आत्मकृतस्येन सो भयजनम शिस्वाः अन्यकृतस्येन सो भयजनम शिस्वाः अस्मत्कृतस्येन सो भयजनम शिस्वाहा यद्दिवाचनक्तञ्चैनश्च कृमदस्या भयजनम शिस्वाः यत्स्वपन्तश्च जाग्रदश्चैनश्च कृमदस्या भयजनम शिस्वाहा यत् सुषुप्तश्च जाग्रतश्चैनश्च घ्रमदस्या वयज नमसि स्वाहा यद्विद्वागुंसश्चाविद्वागुंसश्चैनश्च क्रमदस्या वयज नमसि स्वाहा येन स येन सो भयज नमसि स्वाहा यद्वो देवाश्च क्रमजिह्वाजा गुरुमनसो भाप्रयुति अरापायो नो अभिरुच्छुनायते तस्मिन् तदे नोपसवो निधेतन स्वाहा कामोकार्षी इन्नमो नमः कामोकार्षीत्कामः करोति नाहङ्करोमि कामः कर्ता नाहङ्गर्ता कामः कारयिता नाहङ्गारयिता एष ते कामकामाय स्वाहा मञ्जरकार्षी इन्नमो नमः मञ्जरकार्षीन्मन्यः करोगि नाहङ्करोमि मन्यः कर्ता नाहङ्कर्ता मन्यः कारयिता नाहङ्कारयिता एष ते मन्यो मन्यवे स्वाहा किराञ्जुहो विसरसागुम् सविष्टाम् गन्धारमम चित्ते रमन्तु गावो हिरण्यन्धनमन्नपानगुम् सर्वेषा विश्रिजै स्वाहा श्रियम् च लक्ष्मीम् च पुष्टिम् च कीर्तिम् चान्यताम् ब्रह्मण्यम् बहुपुत्रताम् श्रद्धा मेधे प्रजाः सन्ददातु स्वाहा तिलाः कृष्णास्तिलाश्वेतास्तिलाः सौम्याशानुगाः किरणाः पुनन्तु मे पापम् यत्किञ्चिद्विलितम् मय स्वाहा चोरस्यान्नव श्राद्धम् गोस्ते यगुम् सुरापानम् भ्रूणहत्याशान्तिगम् शमयन्त स्वाहा श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिम् चानृण्यताम् ब्रह्मण्यम् बहुपुत्रताम् श्रद्धा प्रज्ञातु जातवेदः प्राणापानव्यानोदानसमाना मे शुद्ध्यन्ताम् ज्योतिरहम् विरजापि पात्मा भूयासस्वाहा वाङ्मलश्चक्षुश्रोत्रचिह्वाघ्राणरेतो बुद्ध्या कोतिः सङ्कल्पा मे शुद्ध्यन्ताम् ज्योतिरहम् विरजापि पात्मा भूयासस्वाहा त्वार्चर्ममादुम् सर्धिरमे दो मज्जाश्राय वस्थीन मे शुध्यन्ताम् ज्योतिराम् विरजामि पाप्मा भूयासग्गः स्वाहा शिरः पाणिपादपार्श्वपृष्ठोरोदरजङ्घसिष्णोपस्थपाय व मे शुध्यन्ताम् ज्योतिराम् विरजामि पाप्मा भूयासग्गः ज्योत्तिष्ठपुरुषहरितपिङ्गललोहिताक्षि देहि देहि लदापयिता मे शुध्यन्ताम् ज्योतिरहम् विरजा विपाप् मा भूया सर्गस्वाहापस्तेजो बाजुराकाशा मे शुध्यन्ताम् ज्योतिरहम् विरजा भूया सर्गस्वाहा शब्दस्परशरपरसगन्धा मे शुध्यन्ताम् ज्योतिरहम् विरजामि पाप्मा भूया सर्गस्वाहा मनोवाक्कालकर्माणि मे शुध्यन्ताम् ज्योतिरहम् विरजामि पाप्मा भूया सर्गस्वाहा अव्यक्तभावैरहङ्कारैर्ज्योतिरहम् विरजामि पाप्मा भूया सर्गस्वाहा आत्मा मे शुद्ध्यन्ताम् ज्योतिरहम् विरजामि पात्मा भूयासः स्वाहा अन्तरात्मा मे शुद्ध्यन्ताम् ज्योतिरहम् विरजामि पात्मा भूयासः स्वाहा परमात्मा मे शुद्ध्यन्ताम् ज्योतिरहम् विरजामि पात्मा भूयासस्वाहायः विवेट्के स्वाहा ऋग्विधानाय स्वाहा कषोत्काय स्वाहा क्षुत्तिपासामलम् ज्येष्ठामलक्ष्म्यर्नाशगाम्यहम् अभूतिमसमृद्ध्यम् च सर्वान्यर्णदमे पाप्मानग्रस्वाहा अन्नमय प्राणमयमनोमय विज्ञानमयमानन्दमय महात्मा मे शुद्ध्यन्ताम् ज्योतिरहम् भोजासर्गस्वाहा अग्नजे स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा ध्रुवाय भौमाय स्वाहा ध्रुवक्षितये स्वाहा अच्युतक्षितये स्वाहा अग्ने सृष्टकृते स्वाहा धर्मायुस्वाहा अधर्मा युस्वाहा अद्भ्यः स्वाहा ओषधिवनस्पतिभ्यः स्वाहा रक्षोदेवजनेभ्यः स्वाहा गृह्याभ्यः स्वाहा अवसानेभ्यः स्वाहा अवसानपतिभ्यः कामाय स्वाहा अन्तरिक्षाय स्वाहा यदे जि जगदि यच्चतेष्टदीनाम्नो भागोयन्नाम्मे स्वाहा पृथिव्यै स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा सौर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा इन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा स्वधा पितृभ्यः स्वाहा नमो रुद्रायपशुपतये स्वाहा देवेभ्यः स्वाहा पितृभ्यः स्वधास्तु भूतेभ्यो नमः मनुष्येभ्यो हन्दा प्रजापतये स्वाहा परमेष्ठिने स्वाहा यथा कोपश्यतधारः सहस्त्रधारो अक्षिणः ये वामे अस्तु धान्यगुम् सहस्रधारमक्षितम् घनधान्ये स्वाहा ये भूताः प्रचरन्ति दिवा नक्तम् बलिमिच्छन्तो मितुलस्य प्रेष्याः तेभ्यो बलिम् पुष्टिकामो हरामि स्वाहा ब्रह्म ओम् तद्वायुः ओं तदात्मा ओत्सत्यम् ओं तत्सर्वम् ओम् तत्पुरोर्नमः अन्तश्चरति भूतेषु गुहायाम् विश्वमूर्तिषु त्वम् यज्ञस्त्वम् वषट्कारस्त्वमिन्द्रस्त्वकुम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्म त्वम् रजापतेः त्वम् तदाप आपो ज्योतिरसो मृतम् ब्रह्म भूर्भुवः सुभरो श्रद्धायाम् प्राणेन विष्टो मृतम् जुहोमि श्रद्धायामपानेन विष्टो मृतम् जुहोमि श्रद्धाया मुदानेन विष्टोमृतम् जुहोमि श्रद्धाया गुंसमानेन विष्टोमृतम् जुहोमि ब्रह्मणि म आत्मामृतत्वाय अमृतोपस्तरणमसि श्रद्धायाम् प्राणेन विष्टोमृतम् जुहोमि शिवो मा विशाप्रदाय प्राणाय स्वाहा श्रद्धायामपानेन विष्टोमृतम् जुहोमि शिवो मा विशाप्रदाय अवानाय स्वाहा श्रद्धायाम् यानेन विष्टोमृतम् जुहोमि शिवो मा विशाप्रदाय यानाय स्वाहा श्रद्धायामुदानेन विष्टोमृतम् जुहोमि शिवो मा विशाप्रदाय उदानाय समानाय स्वाहा ब्रह्मणि म आत्मामृतत्वाय अमृतापिधानमसि श्रद्धायाम् प्राणेन विश्यामृतकम् हृदाम् प्राणमन्देनाप्यायस्व श्रद्धायामपानेन विश्यामृतकम् हृदम् अपानमन्देनाप्यायस्व श्रद्धायाम् <europé> यानेन विश्यामृतकम् हृदम् द्यानमन्नेनाप्याजस्व श्रद्धायामुदानेऽनि विश्यामृतगम् हुताम् उदानमन्नेनाप्याजस्व श्रद्धायागुम् समानेन विश्यामृतकम् हुताम् समानमन्नेनाप्यायस्व अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठम् च समाश्रितः ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभृग् वाङ्म आसन् न साः प्राणः अक्षोश्चक्षुः कर्णगो श्रोत्रम् बाहुवार्बलम् रोजः हरिष्ठाविश्वान्यङ्गानि तनोः तनुवामे सह नमस्ते अस्तु मामाहिपुंसीः वयस्वर्णा उपसे दुरिन्द्रम् प्रियमे धार्षयो नाधमानाः अपद्भान्तमोर्णुहि कोऽर्ध्यचक्षर्वमूर्ध्यस्मान् निधगेवपद्धान् प्राणाविषातकः नृत्यमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमस्मनस्परि त्वं वनेभ्यस्त्वमौषधेभ्यस्त्वम् नृणान्द्रपदे जायसे शुचिः श्रे न मे सन्धिष्ठस्वस्यो ने न मे सन्धिष्ठस्व स्वभूते न मे नमे ब्रह्मवर्चसे न मे सन्धिष्ठस्व यज्ञस्यर्घिमनुसन्दिष्ठस्वोपते यज्ञ नम उपते नम उपते नमः सत्यम् परम् परगुम् सत्यगुम् सत्ये ननसु वर्गाल्लोकाच्यवन्ते कदाचलन सदागम् ह्य सत्यम् तस्मात् सत्ये रमन्ते लल नानशनात् परम् यद्धि परम् तपस्तद्दुर्धर्षम् तद्दुराधर्षम् तस्मात्तपसि रमन्ते दम इति दमे रमन्ते शम इत्यरण्ये मुनयस्तस्माच्छमे रमन्ते दानमिति सर्वाणि भूतानि प्रशकुंसन्ति दानान्नाति दुश्चरन्तस्मात् दाने रमन्ते धर्म इति धर्मेण सर्वमिदं परिगृहीतं धर्मान्नातिदुष्करन्तस्माद्धर्मे रमन्ते प्रजन इति भोजागुंसस्तस्मात् भोजष्ठाः प्रजायन्ते तस्मात् भोजष्ठाः प्रजनने रमन्ते ज्ञज इत्या हतस्मादग्नय आधातव्या अग्निहोत्रमित्याहतस्मादग्निहोत्रे रमन्ते यज्ञ इति यज्ञो हि रमन्ते वानसमिति विद्वागुंसस्तस्माद् विद्वागुंस एव रमन्ते न्यास ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा सन्न्यास एवात्यरे च यद्य एवम् वेदेत्योपादिशाय जापत्यो हारुणि वर्णेदः प्रजापतिं पितराम्बसारकिं भगवन्तः परमं वदन्तेति तस्मै प्रवाच सत्येन वाजुरावादिसत्येनादित्यो रोचते वाचः प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितं तस्मात् सत्यं परमं वदन्ति तपसा देवा देवतामग्रहाय तपस ऋषजसु वरन् वन्दसा सपत्नान् प्रणुदामारादे स्तपसि सर्वम् प्रतिष्ठितम् तस्मात्तपः परमम् वदन्ति तमेन दान्ता किल्बिषमवधोऽन्वन्त्रह्मचारिणः सुवर गच्छन्दतानाञ्जुराधर्षं दमे सर्वम् प्रतिष्ठितम् तस्माद् दमः परमम् वदन्ति शमेण शान्ता शिवमाचरन्ति शमेण राकम्बुनयोन्व विन्दन् ोतानान्दुराधर्ष मे सर्वं प्रतिष्ठितं तस्माच्छमः परमं वदन्ति दानं यज्ञानां वरोथं दक्षिणा लोके दातारगुं सर्वभूतान्युपजीवन्ति दाने नारातिरपानुदन्तदानेन द्विषं दाने सर्वं प्रतिष्ठितं तस्माद् दानं परमं वदन्ति धर्म विश्वस्य जगतः लोके धर्मिष्ठम् प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मे सर्वम् प्रतिष्ठिरन्तस्मा धर्मम् परमम् वदन्ति प्रजननं, प्रजननं, प्रजननं दंद दंद दंद वै प्रतिष्ठा लोके साधु प्रजायास्तम् वा नः पितृणा वृणा भवति तदेव तस्या अनृणं तस्मात् प्रजननम् परमम् वदन्त्यग्नयो वै त्रयी विद्या ृथिवेदं परमन्वाहार्यपचन यजुरन्तरिक्षं वाहवीयसाम सुवर्गो लोक बृहत्तस्मादग्नेन् परमं वदन्त्यग्निहोत्रगं सायं भ्रातर्गृहाणान्निष्कृतिसृष्णगं सुहृतं यज्ञक्रतोनां वायणं सुवर्गस्य लोकस्य ज्योतिस्तस्मादग्निहोत्रं परमं वदन्ति यज्ञ यज्ञेन हि देवादिवङ्गता यज्ञेनासुरानपानुदन्त यज्ञेन द्विषन्ता मित्रा भवन्ति यज्ञे सर्वम् प्रतिष्ठितम् तस्मा यज्ञम् परमम् वदन्ति मानसं वै प्राजापत्यम् पवित्रम् मानसेन मनसा साधु मानसा ऋषयः प्रजा असृजन्त मानसे सर्वम् प्रतिष्ठितम् तस्मान्मानसम् परमम् वदन्ति न्यासहि त्याहनीषिणा ब्रह्माणम् ब्रह्मा विश्वः कदमस्व जम्भ प्रजापतिः संवत्सर इति एष आदित्ये पुरुषस्य परमेष्ठी ब्रह्मात्मायाभिरादित्यस्तपतिरश्मिभिस्ताभिः पर्जन्यो वर्षति पर्जन्येनोषधि वनस्पतजः प्रजायन्त ओषधि भवत्यन्नेन प्राणाः प्राणैर्बलम् बले लतपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्ति शान्त्या चित्तम् चित्तेन स्मृतिव्यस्मृत्या स्मारग्यस्मारेण विज्ञानम् विज्ञानेनात्मानम् वेदय तस्मादन्नन्ददा सर्वाण्येतानि ददात्युन्ना प्राणा भवन्ति भवतानाम् प्राणैर्मनो मनसश्च विज्ञानम् विज्ञानादानम्बो ब्रह्मजो निःसभा एष पुरुषः पञ्चधा पञ्चात्मानेन सर्वमिदम् प्रोचम् पृथिवी चान्तरिक्षं चद्योश्च दिशश्चावान्तरदिशाश्च स वै सर्वमिदं जगत् सभोतगम् स भव्यं जिज्ञासगप्तयष्ठा श्रद्धा तमसोपरिष्ठाज्ञात्वा तमेवं मनसा हृदा भोजो न मृत्युमुपजाहि विद्वान्तस्मान्यासमेषान्तपसामतिरिक्तमाहुर्वसुरण्भोरसि प्राणे त्वमसि सन्धाता ब्रह्मन्त्वमसि विश्वभृत्ते चोदास्त्वमस्यग्निरसि मोदास्त्वमसि सौर्यस्यद्युम् नोदास्त्वमसि चन्द्रमस उपजाम गृहेतोऽसि ब्रह्मणे रामः स ओमित्यात्मानम् युञ्जेतैतद्वैवोपनिषदम् देवानाङ्गुष्यञ्ज एवम् वेद ब्रह्मणो महिमानमाप्नोति तस्मात् ब्रह्मणो महिमानमित्युपनिषत् तस्यैवम् विदुषा यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्वमरो वेदिर्वमानि बर्हिदशिखा हृदयपः काम आज्यम् मन्यः पशस्तपोग्निर्दवः समहिता लक्षिणा वाघदा यदश्नाति तद्धत्यपति तदस्य सोमपानै यद्द्रमते तदुपसदो यत्सञ्चरत्युपविशत्युत्तिष्ठते च स प्रवर्ग्यन्तदाहवने यो या व्याहृतिराहुदर्यदस्य विज्ञानं तज्जुहति यत् सायम् प्रातरत्यतत् समिघञ यत्प्रातर्मध्यन्दिनघम् सायञ्च तानि सवनानि अहोरात्रे पूर्णमासौ येर्धमासाष्टमासाश्च ते ेव महिमानम् गत्वा नित्यस्य सा यज्यम् दक्षिणे प्रमीयते पितृणमेव महिमानम् गत्वा चन्द्रमसः सा यज्ञम् लोकतामाप्नो ये तौ वै सोर्या चन्द्रमसा महिमानो ब्रह्मणो तस्मात् ब्रह्मणो महिमानमाप्नोदिदस्मा ब्रह्मणो महिमानमेत्योपानिषत् सहनाभवत् सहनोऽधुनक्तो सह यम् करमावहै तेजस्विनापधीतमस्तु मा विद्विषावहै इति तैत्रिय आरण्यः दशमः